श्रीमद्भागवद्महापुराणं दशमस्कन्धम् अधैको नाशिते तपोऽध्यायः बलबल् उद्धार और बलरामजी कीतीर्थयात्रा श्रीशु कुवाच ततः पर्वुपावृत्ते वर्षणः भीमो वायुर्भद्राजन् पुयगन्धस्तु सर्वशः ततो मेध्यमयं वर्षं बलबलेन विनिर्मितम् अभवद् यज्ञशालायां सोऽन्मदृश्यत शूली तं विलोक्य बृहत्कायं भिन्नाञ्जनचयोपमं तप्तताम्रशिखाश्मस्रुं द्रष्टोग्रफुकुटीमुखं सस्मारमुसुलं रामपरसैन्यविधारणम् हलं च दैत्यदमनं तेतूर्णमुपतस्थतु तमाकृष्य हलाग्रेण बलबलं गगनेचरं मुसलेनाहनत्क्रुद्धो मृत्नी बलह। द्रुहं लुलाटो सोपतद्भुर्विनिर्भिन्नललाटोऽशिखसमुसृजन् मुञ्चनार्तस्वरं शैलो यथा भद्रहतोरुणः संस्तुल्यमुनियो रामं प्रयुज्या वितथाशिषः अभ्यसिञ्चन्महाभागावित्रघ्नं विबुधा यथां वैजयन्तीं ददुर्माणां श्रीधामां लानपङ्कजां रामाय वाचसे दिव्ये दिव्यान्यां धरणानि च अथैरभ्यनुज्ञात कोशकीमेत्य सरो स्नात्वा सरोवर्मगादयतः सर्योरास्रवत अनुस्रोतेन सर्युं प्रयागमुपगम्य सन् स्नात्वा सन्तर्पदेवादीन् जगामपुलहाश्रमम् गोमतीं गण्डकीं स्नात्वा विपाशां शोण आप्लुतः गयां गत्वा पितृनिष्ट्वा गङ्गासागरसङ्गमे उपस्पृश्य महेन्द्रादौ रामं दृष्ट्वाभिवाद्य च सप्तगोदावरीं वेणां पम्पां भीमरतिं ततः स्कन्दं दृष्ट्वा ययौ राम श्रीशैलं गिरिशालयं द्रविणेषु महापुण्यं दृष्ट्वा दृम्बे कृतं प्रभो कामकोष्णीं पुरीं काञ्चीं च सरिद्वराम् श्रीरङ्गाख्यं महापुण्यं यत्र सन्निहितो हरिः ऋषभाद्रिम्भरेक्षेत्रं दक्षिणां मथुरां तथा सामुद्रं सेतुं मगमन्महापातकनाशनं तत्रायुतमदाधेनुर्ब्राह्मणेभ्यो हलायुधम् कृतमालां ताम्रपर्णिं मलयं च कुलाचलम् तत्रागस्त्यं समासीनं नमस्कृत्याभिवाद्य च चा। योजितस्तेन चाशीर्भिरञ्ज्ञातो गतोर्णवम् दक्षिणं तत्र कन्याख्यां दुर्गां देवीं ददर्श ततः फाल्गुणमाशाद्य पञ्चावसरसमुत्तमम् विष्णुसन्निहितो यत्र स्नात्वा स्पर्शनं गवायुतम् ततो भीव्रज भगवन् केवलां सूत्रिगर्तकान् गोकर्णाख्यं शिवक्षेत्रं सान्निध्यम् यत्र धुर्जटेः आर्याम् दैपायनीम् दृष्ट्वा सुरपारकमगाद्बलः तापिम् पयोष्णिम् निर्विद्याम् उपस्पृश्यासदण्डकम् प्रविश्य रेवामघुमन् यत्र माहिस्मती मनुतीर्थमुपस्पृश्य प्रभासं पुनरागमत् श्रुत्वा द्विजै कथ्यमानं कृपाण्डौ संयुगे सर्वराजन्यनिधनं भारं मे निर्हृतं भुवः स भीमधुर्योधनुयोर्गादाभ्यां युध्यतोर्मिधे वार्यस्यन्विनशनं जगाम यदुनन्दनः युधिष्ठिरस्तु तं दृष्ट्वा यमौ कृष्णार्जुनावपि अभिवाद्याद्भवत्तुष्टिं किविवक्षोरिहागतः गदापाणि उभौ दृष्ट्वा संरब्धौ विजयैषिणौ मण्डलानि विचित्राणि चरन्ताविदमब्रवीत् युवां तुल्यबलौ वीरौ हे राजन् हे वृकोदर एकं प्राणाधिकं मन्ये उतैकं शिक्षयाधिकम् तस्मादेकतरश्येहयुवयो शमवीर्ययोः न लक्ष्यते जयोऽन्यो वां निर्मत्वफलोरणः न तद्वाक्यं जर्तुर्बद्धभैरो नृपार्थवत् अनुस्मरन्ता वयोऽन्यं दुरक्तं दुष्कृतानि दिष्टं तदनुमन्मानो रामो द्वारवतीं ययौ उग्रसेनादिभिः प्रीतैर्ज्ञातिभिः समुपागतः तम् पुनर्नैमिषम् प्राप्तम् ऋषियो याजियन्मुदा क्रस्त्वङ्गं कृतभिः सर्वैर्वित्ताखिलविग्रहम् तेभ्यो विशुद्धविज्ञानं भगवान् व्यतरद्विभुः येनैवात्मन्यदो विश्वम् आत्मानं विश्वगम् विदुः स्वल्पत्न्यावभृतस्नात् ज्ञातिबन्धो सृहृद्वितः देजे स्वजोऽसने ये विन्दुः सुवासा सुष्ठबलङ्कृतः एदृग्धान्यसङ्ख्यानि बलस्य बलशालिनः अनन्त्याम् त्रीयस्य मायामर्त्यस्य सन्तिः यो योऽनुस्मरेत् रामस्य कर्माण्यद्भुतकर्मणः सायं प्रातरन्तस्य विष्णो च जैतो भवेत् ते श्रीमद्भागुते महापुराणे पामंस्यां सहितायां दशमस्कन्धे उत्तरादि बलदेवतीर्थयात्रानिरूपणं नामैकोनाशीतितमोऽध्यायः